अभ्यषिञ्चत्तदा रामः सुग्रीवम् वानरेश्वरम् ततः सवीर्यवान् राजं स्वरयन् वै समुत्सुकः विचित्य वायुपुत्रेण लङ्कादेशम् निवेदितम् सेतुम् बद्ध्वा समुद्रस्य वानरैः सहितस्तदा सीतायाः पदमन्विच्छन् रामो लङ्काम् विवेशह देवोरगगणानाम् हि यक्षराक्षसपक्षिणाम् तत्रावध्यम् राक्षसेन्द्रम् रावणं युधि दुर्जयम् युक्तम् राक्षसकोटिभिर्भिन्नाञ्जनचयोपमम् दुर्निरीक्ष्यम् सुरगणैर्वरदानेन दर्पितम् जघान सचिवैः सार्धम् सान्वयम् रावणम् रणे त्रैलोक्यकण्टकम् वीरम् महाकायम् महाबलम् रावणम् सगणम् हत्वा रामो भूतपतिः पुरा लंकायाम् तम् महात्मानम् राक्षसेन्द्रम् विभीषणम् अभिषिच्य च तत्रैव अमरत्वम् ददौ तदा आरुह्य पुष्पकम् रामः सीतामादाय पाण्डव सबलः स्वपुरम् गत्वा धर्मराज्यमपालयत् दानवो नाम मधोः पुत्रो महाबलः शत्रुघ्न हा राजस्तो रा शासना कर्मा लोकहिताय सह राज्यकार विधिवर्म भृतां वर है दशाधाज्रे जारुधिस्थान निरर्गला